तृतीयकाण्डे द्वितीयप्रश्नः प्रारम्भः यो वै पवमानानामन्वारोह ेन पवमाना नारोहति पवमाने जच्छिजने श्येनासि गा यत्र छन्दा अनत्वा रभे स्वस्ति मा तिष्ठच्छन्दा अनुत्त्वारभे स्वस्ति मासं पारय सकासि जगति छन्दा अनुत्वारभे स्वस्ति मासं पारयेत्याहै ते वै पवमानानामन्नारोहास्तानुय एवं विद्वानयज तेन पवमानानारोहते न पवमानेभ्यो गच्छिद्यते यो वै पवमानस्य सन्दतिं वेद सर्वमायुरे भवति प्रजाम् पवमानस्य ग्रहा गृह्यन्ते अथवा अस्यैते गृहीतात्राणकलशाधमीय प्रोदवृत्ता यद् गृहीत्वा गृह्यात् पवमानं यच्छिन्ध्यात्तम् विच्छिद्यमानमत्वया प्राणानुविच्छिद्येतोपयामगृहीतो प्रजापतये त्वे चत्राणकलशमभिनुषेन्द्रायत्वेत्याधवनीयं विश्वे भृतम् पवमानमेव तत्सन्तयुर्वेदुष प्रमीयते पशमान् भवति विन्दते प्रजा श्रीणिवावसवनान्यथ तृतीयगुंसवनमवलंबन्सु कुर्वन्त उपागुंशुगुं हत्वपागुंसुपात्रीयसवनेऽपि सुमद्यत विश्वादिजेन सर्वाण्येव तत्सवनान्यगुं सुमन्ति सुत्रवन्ति समावधेर्याणि करोति ेव पश्यन्त अतियञ्जन्यमपश्यन्तश्चे धुनातियञ्जन्यम् त्रदसि सततीवस्तेशी विश्वा भुवनानि विद्वा तिरोदायैति रसितम् प्रदानशुक्रमादत्ते अनुभाय चार्ये देवा वै यत्यज्ञे कर्वत तदसुरा कुर्वत ते देवा एतं महायज्ञमवस्य हात्रम् व्रतमकर्वत तस्मात् विव्रतस्याज्ञहात्र्योर्णमासंज्ञमग्निशोमेयम् अशुमकर्वतभाष्येयम् अशुमकर्वत वैश्वदेवं राजस्वनमकर्वत वरुणप्रकाशान्माद्यञ्जन साकमेधान् यज्ञम्बकागस्तृतीयसफलमगर्वदतमे शामसुरायिज्ञमन्मवाजिगातु कुर्वन्नर्तव्या वायिमे देवाभो मन्यति तत्परस्यातो देवाभवन् परासुराय एवम् विद्वान् सोमेन यजते भवत्यात्मना परास्य भ्रातुर्यो भवति हरिभोरज्ञम् परिभोरिन्द्रम् परिभोर्विश्वान् देवान् परिभोर्मागो सह ब्रह्मवक्षसेन सञ्जनाय समर्वते सुरायजन्माश देव्याच्छिन्नस्य दे नयपते सुवीर्यस्य रायस्पोषस्य ललितारस्याम तस्य मे राश्व स्वस्य देवक्षीयलस्य इदमम् मृगे नाय मे वचोदावच्य देववस्वापानाय व्यानाय माचेदक्षक्रतुभ्यां चक्षुर्भ्यामेवचोदो वच्यदेवश्रात्राय आत्मलिङ्गेभ्यायुषे वीर्याय विष्णोरिन्द्रस्य विश्वेशान् देवानाञ्जरमधिवच्चोदामेवच्यदेव गो सुखो नामकस्मै त्वागाय त्वायन्द्वादो मेनादिदृपञ्जन्द्वादो मेनामी मदगो प्रजा ो या सगो स्वीर वीरैः स्ववर्जावर्चसा स्मोषैर्विश्वेभ्यो मे रूपेऽप्यावर्चोदावर्त्यसेव स्वदस्य मे रास्वदस्य देवक्षि यदस्य त इदमुन्मये भुवोषण्णवे क्षेदैष वैवात्रियः प्रजापदरि यज्ञः प्रजापदिस्तमेव दर्पये दशेनम् दृतो भूत्याभिभवदे ब्रह्म वर्त्यस रामवे क्षेदैश वैवात्रियः प्रजापदर् यज्ञः प्रजापतिस्तमेव दर्पये दशेनम् धृत्तो ब्रह्मवर्चसेनाभिभवद आमयाव्यवे क्षे दैशवैवात्रियः प्रजापदर् यज्ञः क्षे तैष मै मात्रयः प्रजापतिर्यज्ञः प्रजापतिस्तमेव श्रोताभ्यामात्मनोङ्गेभ्य आयुषाम् परे चायप्रदन्मतीयस्वस्त्यर्मिघनस्वस्ति परश्वे परशर्मः स्वस्ति यज्ञया यज्ञकृतस्थदे मास्विन यज्ञोपयतमुपमाद्या वा पृथिवेश्वस्तावकल सोमो अग्निरुपदेवा उपयज्ञरूपमाहोत्रा उपहवेश्वन्नमोऽखस्य मावेर्यादित्यापतिष्ठते यज्ञो वै मखो यज्ञम् वा सददान्तस्मा न्दस्मा एव नमस्कृत्य तदप्रसत्पत्यात्मनात्येन मे वीर्यं मा निर्वजीर्यहोत्रेयमाशिषमेवैतामाशास्तेन्द्रियस्य वीर्यस्यानिर्घादाय या वै देवतासुरस्यात्यमार्पयन्द्रियस्ता विद्वान् प्रसत्पदिनसुरस्यात्यमाच्छदिनमादेवत्याहै का वै देवतासुरस्यात्तिमार्पयन्द्रिकाय एव स्याेस्तरेक्षापृथिव्यायस्वी मनुष्ये देवे मासन्दामस्तदेन सस्पदये नमः पुरोगाणां ऋक्षसे नमो दिवे नमः पृथिव्यादेष्ठान्यस्य पाकदरमुण्वधौ केषुम् पादम् वा पृथिवी अप्या नः सो वै प्रसत्पन्दम् पितरः प्रसत्पन्द्यते नमेश्वराय सदः प्रसर्प्यदक्षिणाद्यम्बरे क्षेतागुञपितरत् युष्माभिर्भूयासौ सोमया योऽयम् भूयास्तेदितेऽप्य एव भक्षे हिमाविशदेत्यायुत्ताय सङ्गत्वाय रायस्पोषाय वर्त्यसे प्रजास्वायै हि वसो पुरो वसौ हियो मे हृदो यस्मिन् स्वा बाहुभ्यामोसख्यासं रुजक्ष संवादेव सोम सुजक्षावख्येशं मन्द्राविभो देतुर् यज्ञानां वाग्यषाणासोमस्य दृप्यतमन्द्रासर्वास्य वाग्यषाणासोमस्य तृप्यत्वे हि विश्वचर्षणे स्वस्तिमा हरिवर्णः प्रचरक्रत्वे दक्षाय रायस्पोषाय सुरीरराये मामाराय न सुमर्गणस्य रामदेवते मधुविदप्रादस्य वनस्य कायित्र छन्दसैन्द्रवेदस्य न राजगोसवेदस्य पितुर्वेदस्य मधुमधवो तस्यापहोदा भक्षयामि रुद्रवर्गणस्य रामदेवते मधुभिदो माध्यन्दिनस्य समनस्य सवनस्य जगति छन्द ेदस्य मधुमदस्य भक्षयामि आय स्वमेतते विश्वदस्वृष्टियम् एकात्रा हरिवीदृशः स्वोमे सप्तश्च स्व मामेवान्नाभिमतिकारमिदाम किमस्मान्द्रणमदायः किमधोत्यमदमत्यस्य आत्माग्नस्तत्मनराविजर्षणिरदात्मनरिन्द्र बृहस्पतिः पुनर्मे अश्विना इवञ्जक्षराधत्त्वमक्ष्यो इष्टैश्वमस्तमस्य शस्तार्थस्यैव इन्द्रमेदस्य मधुमधोदस्याक्षयामि महापोर्यास्थामापोरयत प्रजया रथनेन च वेदत्ते जत्वा मन् वेदत्ते पितामह प्रविदामः ये जत्वामन्मत्र पितर यथा भागम् मन्दवक्पितरसाय नमा वक्पितर सुष्माय नमो वक्पितर शीवाय नमो वक्पितर स्वधाय नमो वक्पितर धन्यवे नमा वक् पितर घोराय पितरो नमो भोगेऽस्मिन् लोके माञ धिष्ठा भूयासम्प्रजापते नान्यविश्वा जातानि परितापभूवस्तेनास्त्व वै कृष्यामपदयोरयिणा ेव कृतस्येन स भयजनमसि मनुष्यकृतस्येन सा भयजनमसि पितृकृतस्येन सा भयजनमस्य सोमदेव धेनुस्तेष्टै शस्त्र सोमस्य शस्वार्थस्य या भक्षा अष्टस्य विश्वेषाम् देवानान्द्यासमध्यपृषदेनाङ्ग्रहम् पृषदेनाङ्ग्रहासविष्णोर्हृदयमस्य क्रमिश विष्णुस्वानविजक्रमेणस्य मेष्टस्य वेदस्य त्रविणमागम्यासैवानरम् पृष्टये दुद्धैयावधीत्या वा पृथिवी महित्वा यावच्च सप्तसिन्धवा विदस्थो आवन्दविन्द्रे ग्रहगौ ग्या गृह्णाम्यस्तृतम् श्रकृष्णशप्रषदा त्यमृषे प्रमायुका सूर्ये चतुष्पादास्य प्रमायुका सूर्ये प्रमायकस्यात्मशवैपृषदाशभो वा एतस्य स्कन्दं देयस्य पृषदा त्यग्स्कन्द दयप्रषदा किं वनर्गृह्णादिगृह्णादि प्राणो वैपृषदां प्राणो वा एतस्य स्कन्द देयस्य पृषदा त्यग्स्कन्द पुनर्गृह्णाति प्राणमेवास्मै पुनर्गृह्णाति हिरण्यमवधाय गृह्णात्यमृतं वै हिरण्यं न्दले वै सव्यच्च पुनर्गृह्णादि यज्ञावै विष्णुर्यज्ञे देव यज्ञकोकण्डलो दे ेव सवितरेदत्यप्राहतप्रज सभप्रजये जबस्पतिर्ब्रह्मायुष्मत्यामागादनोपात्सामनः सत्या वा आशिषः सन्धु सत्यातदेवस्य सवितः प्रभवे स्तुतस्य स्तुतमस्योर्जन्मष्यज्ञस्तुतन्धुहामा स्तुतस्य स्तुतङ्गम्याच्छस्त्रस्य शस्त्रमस्योर्जन्म यज्ञो शस्त्रन्दुहा शस्त्रङ्गम्यादिन्द्रिया वन्दो वनामहेजुक्षेमे प्रजामिषम् सामे सत्याचे देवेषु भूयात् ब्रह्मवत्यथमागम्यात् यज्ञापभो वसापभो वसप्रयज्ञे समावृते स देवानामधिपदर्प्रभो वसो अस्माकोऽधिपतेन् यज्ञाभावै यज्ञपदन्धु यज्ञपदुर्वा यज्ञन्दुहे शस्त्रिष्ट्वा स्तुतमस्यो ब्रह्मस्य स्तुमस्यो ब्रह्मज्ञो शस्त्रन्दुहा शस्त्रस्य शस्त्रन्द्रं म्यादि चा है हस्तङ्ग एवम् विद्वानै एव यज्ञमिष्ट्वावसीयान् भवति श्वनाय वर्मने स्वाहावत् स्वयम विगोक्ताय नमाविष्टम्भाय धर्मणे स्वाहवट् स्वयम विगोत्ता यनमपरिधये जनप्रथनाय स्वाहवट् स्वयमृगोक्तायनमगोद्ये होत्राणाग स्वाहावत् स्वयमृगोत्तायनमप्रे होत्राणावि स्वाहवट स्वयमृगोत्तायनमप्रजापतय मनवे स्वाहवट स्वयम विगोत्ताय नमृतमुदवा स्वावट् स्वयमृगोक्तायनमस्तं ृदृभक्ता अनुगप्यमानामधव्यधा सन्नस्ताभ्या घोरार्षयो नस्मेभ्येशास्पदये मिषत्यमन् नमः नमो विश्वकर्मणे स उपात्वस्मानन्यान् समुपान्मन्यमानः प्राणस्य विद्वान्तमरेण धीरयेणश्च कुवान्महि बद्धाम् विश्वकर्माणञ्जा स्वस्थये ये भक्षयन्तो नीन्द्रेषामया दृष्ट्ये स्वेष्टिन्नस्ताम् कृणो च विश्वकर्मा यज्ञकामास्तु देवा दक्षिणान्नने ममानस्तु स्मादेन सर्वापैष्टा योगोदस्यास्ते सर्वे दक्षिण्यास्तेभ्यो यो दक्षिणान्ननयैलेभ्योतिसदस्यानेव तत्प्रीणात्यस्मै देवासोषे चिकित्सदयमाशिरादम्बे वा मम शिलः य देविन्ददेवस्वधविश्वे अरपाय धे गृहः आशेत्ताया दम्पती वामवृष्टिरामरिष्टरायस्य च साकं समादृशात्सन्दग्धम् सकृदेवीबीवर्यस्य जायापीवानः पुत्रा गृहासो अस्या निर्यमान इन्द्रायाशिरकं सम्भ्यादा आशीर्मोर्जमदसुप्रजास्त्वमिषधा तत्रवर्जसम् सञ्जयम् क्षेत्राणि भूतमसि भूतेमाधामुखमसि मुखम् भूयासञ्ज्ञा वा पृथिवीव्यान्वा परिगृह्णामि विश्वे देवान्ध्रुगोहान्तरिक्षेवया पृथिव्याम् पार्थिवान् ध्रुवम् ध्रुवेण हविषाभो मन्नयामसि यथा नः सर्वमित्यगदयक्ष्मकौ समनासद यथा न इन्द्र इद्विषक्ते वेः सर्वाः समनसकर यथा नः सर्वा इद्विषास्माकम् केवले रसन् र्यमभ्यावत्रमेनमभिप्रवर्तय चुक्षा इत्याहप्रादस्वनम् प्रतिगीर्यत्रेतान्यक्षराणि त्रिपुदा गायत्र्यै गायत्रम् प्रातस्य वनम् गायत्र्यैव प्रादस्वदेव मुख्यम् वाचीत्याहमाध्यन्यम् प्रति कीर्यत्वा एतान्यक्षराणि चलष्पदा दृष्टुत्रैषु वह्माध्यन्दिन कुंसवनम् दृष्ट्वैव माध्यन्दिने वज्रमन्तर्धर्तमुख्यम् चेन्द्रायेत्याह तृतीयसवनं प्रतिगेर्य सत्यैतान्यक्षराणि सत्वपदाषक्परीषा तृतीयसवने वज्रमन्दते ब्रह्मवाजना वदन्ति सत्त्वार्यस्यागोसंवादयेत्मन् दधयितेन्द्रियं माध्यन्दिने सवने पशोगस्तृतीयसवन इत्युक्स इत्याह प्रादस्य वनं प्रतिगेर्यत्रेण्येतान्यक्षराणि त्रिपदाघाय े गायत्वं प्रादस्वनं एव प्रतिघरे छन्दागुंस संवादयच्चायत्रे तेजः प्रादस्वनं तेज एव प्रादस्वन आत्मन्ध्यं गोसवनं चतुष्पदातुष्टप्रेष्टभं माध्यन्दिन गोसवनं माध्यन्दन एव सवने प्रतिघरे छन्दास संवादयम् एव प्रतिगरे सम्पादयत्यथो पशभो वै जगदे पशवस्तृतीयसवनं पशो नेव तृतीयसवन आत्मन्धत्ते धर्यमभ्याह्यदाव्यमस्मिन्नावहनेन परास्तुं वत्सरा एवं वृत्तान् त्यास्य प्रजाया एव इमामेव तेनोद हे इति तिष्ठन् प्रति गृणात्यमुष्या एव तदधर्यं मयिष्ठदेव यथावथो अमोमेव तेनैजमानोद हे यदासि नस्य गोषदितस्मादितः प्रधानं देवा उपजेम्यतिष्ठन् प्रति गृणाति तस्मादमुतः प्रदानं मनुष्या उपदेवा स्य गोसले प्रत्यङ्गणादितस्मात् दे प्राचीनगोलीय देवर्यमभ्यासैरेववित्रमभिप्रवर्तय दे देव रामावर्त देवत्रमेव दे दन्यकरोति वयामृह दोधिमाक्षसदधिवाक्पाभ्यान् वा कृतमाभ्यामस्ति यस्य धर्मस्याध्यक्षाभ्यां गृह्णाम्युवयामृहे दोतिश्रत सदधिपाभ्यान् वा कृतमाभ्यामस्ते यस्य र्वाक्पा वाचं मे पाहि मैवक्षुष्पाश्चन्मे पाहि मैव श्रोत्र वा श्रोत्रं मे पाहि धोलसिश्रेष्ठो रश्मीणां प्राणवा प्राणं मे पाहि धोलसिश्रेष्ठो रश्मीनामपानवा अपाणं <ततत था> मे पाहि यस्य माविधात्रे पूर्वोग्नयेभेत्रीर्मीः विष्णु पारयन्ता भारिन्नपराजे स्पृते त्रयधा सहस्रम् मिलैर ीन्यायोषितवजातवेदस्य स आजाने ऋषदस्ते अग्ने ताभिर्देवानामवो यक्ष विद्वानथा भवयजमाना यशयोः अग्निस्त्रे नित्यधातोऽन्याक्षेदधा कविः सत्रे गौरेकादशा यः यक्षच्च विप्रयच्च न्वेन समेद्वाजहति पुत्रमिन्द्रहष्यन् सहे विश्वामि तलम् विक्रमस्व इति तृतीयकाण्डे द्वितीयः प्रश्नः समाप्तः